तैत्रियो तैत्त्रियोपनिषत्प्रथमा शिक्षावल्ली श्रीगुरुभ्यो नमः हरिः ॐ चो मित्रसंवरुणः सन्नो भवद्वर्यमा सन्न इन्द्रो बृहस्पतिः सन्नो विष्णुरुक्रमः नमो ब्रह्मणि नमस्ते वायो त्वमेव प्रत्यक्षं ब्रह्मासि त्वामेव प्रत्यक्षं ब्रह्म वदिष्यामि ऋतं वदिष्यामि सत्यं वदिष्यामि तन्मामवतु तद्वक्तारमवतु अवतु माम् अवतु वक्तारम् ॐ शान्ते शान्ते शान्तिः हरिः ॐ शिक्षां या आख्या श्यामः वर्णश्वरः मात्रा बलं सामसन्तानः इत्युक्तस्य ऐक्षाध्यायः सह नौ यशः सह नौ ब्रह्मवर्चसम् अथा सम्भिता या उपनिषदं या आख्यास्यामः पञ्चस्वधिकरणेषु अधिलोकमधिज्योतिषमधिवेद्यमधिप्रजमध्यात्मं तामहाशगम्भिता इत्याचक्षते अथाधिलोकम् पृथिवीपु ऊर्वरूपं जौरुत्तररूपम् आकाशस्सन्धिः वायुसन्धानम् इत्यधिलोकम् अथाधिज्योतिषम् अग्निपो ऊर्वरूपम् आदित्योत्तररूपम् आपः सन्धिः वैद्युतः सन्धानम् इत्यधिज्योतिषम् अथाधिभेद्यम् आचार्यपूर्वरूपम् अन्तेवास्युत्तररूपं विद्यासन्धिः प्रवचनकं सन्धानम् इत्यधिभेद्यम् अथाधिप्रजम् मातापो ऊर्वरूपम् पितोत्तररूपं प्रजासन्धिः प्रजननगं सन्धानम् इत्यधिप्रजम् अथाध्यात्मम् असराहनुपो ऊर्वरूपम् उत्तराहनुरुत्तररूपं वाक्सन्धिः जिह्वासन्धानम् इत्यध्यात्मम् इति मा महासगम्हिता य एवमेतामहासगम्हिता व्याख्याता वेद सन्धीयते प्रजया पशुभिः ब्रह्मवर्चसेनान्नाद्येन च वर्गेण यच्छन्दशा मृषभो विश्वरूपः छन्दोभ्योऽध्यपिता आसं बभूव समिन्द्रो भेदया अस्मिनोतु अमृतस्य देवधारणो भूयासं शरीरं वे विचर्षणं देवा भे कर्णा आभ्याम्भूरिविस्रुवं ब्रह्मण कोशोचिमेधया पिहितः श्रुतं मे गोपाय आवहन्ति वितन्वानां कुर्वाणाचीरमात्मनः वासागंसि मम अन्नपाने च सर्वदां ततो मे श्रियमावह लोपसां पशुभिः सह स्वाहा आम् आमायन्तु ब्रह्मचारिण स्वाहा आमायन्तु ब्रह्मचारिण स्वाहा प्रमायन्तु ब्रह्मचारिण स्वाहा नमायन्तु ब्रह्मचारिण स्वाहा समायन्तु ब्रह्मचारिण स्वाहा यशो जनेशानि स्वाहा श्रेयाम्बस्य शोषाणि स्वाहा गं त्वा भगप्रविशानि स्वाहा समा भगप्रविश स्वाहा तस्मिन् सहस्रशाठे निभगाहं तै मृजे स्वाहा यथा प्रवृतायन्ति यथा स्मासा अहर्जरम् एवं मां ब्रह्मचारिणः धातुरायन्तु सर्वतः स्वाहा आ प्रमाभाहि प्रमापद्य भुर्भुवश्वरिति वा एतास्ति सो व्याहृतयः दासामुभस्मै तां चतुर्थीं महाचमस्य प्रवेदयते मह इति तद्ब्रह्म च आत्मा अङ्गान्य लोकः भुव इत्यन्तरिक्षं सुरित्यसौ लोकः मह इत्यादित्यः आदित्येनेव वाव सर्वे लोका महीयन्ते भोरिति वा अग्निः भुव इति वायुः सुवरित्यादित्यः मह इति चन्द्रमा आह चन्द्रमषा वाव सर्वाणि ज्योतिर्गंसि महीयन्ते भूरिति वा रिचः भुव इति सामानि तुवरिति यजुगन्सि मह इति सुवरिते जानः मह इत्यन्नम् अन्नेन वाव सर्वे अप्राणामहीयन्ते ता वा तायो वेद स्ववेद ब्रह्म सर्वे एस्मै देवा बलिमा वहन्ति स य एष ॐदयाशः एतस्मिन्नयं पुरुषो मनोमयः अमृतो हिरण्मयः अन्तरेण ताडुके य एष स्तन इवावलम्बते से एन्द्रयोनिः यत्रासोके शांतो विवर्तते जपोष्य शीर्षकपादे भूरित्यग्नौ प्रति तिष्ठति भुव इति वायौ तुवरित्यादित्ये मह इति ब्रह्मणि आप्नोति स्वारा आज्यम् आप्नोति मनसस्पतिम् वाक्पतिश्चक्षुस्पतिः श्रोत्रप्रतिविज्ञानपतिः एतद्धतो भवति आकाशशरीरं ब्रह्म सत्यात्मप्राणारामं मन आनन्दं कान्तिसमृद्धमृतम् इति प्राचीनयोग्योपाश्व पृथिव्यन्तर्हिक्षं द्यो दिशोभान्तर्दिशा अग्निर्वायुरादित्यश्चन्द्रमानक्षत्राणि आप ओषधयो वनस्पतय आकाश आत्मा इत्यधिभूतम् अथाध्यात्मम् प्राणो व्यानोपान उदानः समानः चक्षुःशोद्रह्मणो वा कतुक सर्वमागं शब्दस्नावास्थिमज्जा एतदधिविधा जायश्रीवोचत पाङ्क्तं वा इदगं सर्वं पाङ्क्ते दैव पाङ्क्तग्ं शृणोतीति ॐ ते ब्रह्मा ओमितिदकं सर्वम् ॐमित्येतदनुभृतिहस्मवाप्यो श्रावयेत्यायन्ति ओमिति सामानी गायन्ति ओगं सोमिति सस्रालीसंसन्ति ॐमित्यध्वर्युः प्रतिगरं प्रतिज्ञहाति ॐ मिति ब्रह्मा प्रसौति ॐमित्यग्निहोत्रमनुजानाति ॐमिति ब्राह्मण प्रभक्षन्नाः ब्रह्मोपा आप्नवानीति ब्रह्मैवोपा आप्नोति ऋतं च स्वाध्याय प्रवचने च सत्यं च स्वाध्याय प्रवचने च तपश्च स्वाध्याय प्रवचने च दमस्य स्वाध्याय प्रवचने च क्षमस्य स्वाध्याय प्रवचने च अग्नयश्च स्वाध्याय प्रवचने च अग्निहोत्रं प्रवचने च अतिथयश्च स्वाध्याय प्रवचने च मानुषं च स्वाध्याय प्रवचने च प्रजा च स्वाध्याय प्रवचने च प्रजनस्य स्वाध्याय प्रवचने च प्रजातिश्च स्वाध्यायप्रवचने च सत्यमिति सद्यवचाराधीकरः तप इति तपो नित्यपौरिसृष्टिः स्वाध्यायप्रवचने एवेति नाको अहं प्रेक्षश्चरे जि वा गिरते पृष्टं गिरेजिवा ऊर्ध्वपवित्रो वाजिरिव स्मृतमस्मि द्रविणवं सर्वं सभर्चसं सुमेधा अमृतोक्षितः इति शङ्कोर्वेदानुवचनं वेदमनुजाचार्योऽन्तेवासिनमनुशास्ते सत्यं वद धर्मं चर स्वाध्यायान् मा प्रमदः आचार्याय प्रियं धनमाश्रित्य प्रजातन्त्वं मा जेसि सत्यान्न प्रमदितव्यं धर्मान्न प्रमदितव्यं कुशलान्न प्रमदितव्यम् उच्चैः न प्रमदितव्यम् स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यं देविपन् देव पितृकार्याभ्यां न प्रमदितव्यं मातृदेवो भव पितृदेवो भव आचार्यदेवो भव अतिथिदेवो भव यान्यन्यवद्यानि कर्माणि तानि सेवितव्यानि न इतराणि यान्यस्माकग्ं सुचरितानि तानि त्रयोपास्यानि नो इतराणि ये के चास्मच्छेयागं सो ब्राह्मणा येषां तयासनेन प्रश्वसितव्यं श्रद्धया इया देयं इया देयं संविदा देयम् अथ यदि ते कर्मविचिकेस्सा वा वृत्तविचिकेस्सा भाषा एतत्र ब्राह्मणा आसम्मर्षिणः युक्ता आयुक्ताः अलोक्षाधर्मकामास्यो यथा ते तत्र वरतेरन् तथा तत्र वरतेथाः तथा च आख्यातेषु एतत्र ब्राह्मणा आसम्मर्षिणः युक्ता आयुक्ता अलोक्षाधर्मकामाश्युः यथा ते तेषु वरतेरन् तथा ते एष आदेशः एष उपदेशः एष वेदोपनिषत् एतदनुशासनम् एवमुपासितव्यम् एवमुचैतदुपास्यं सन्नो मित्रस्य वरुणः सन्नो भवद्वर्यमा सन्न इन्द्रो बृहस्पतिः तन्नो विष्णुरुक्रमः नमो ब्रह्मणे नमस्तेवायो त्वमेव प्रत्यक्षं ब्रह्मासि स्वामेव प्रत्यक्षं ब्रह्मावादिसं ऋतमवादिसं सत्यमवादिसं तन्मा मावे तद्व्यक्तारमावे आभिन्नाम् आवे एद्व्यक्तारम् ॐ शान्तेशान्ते शान्तिः हरिः ॐ तत्सत् श्रीरामकृष्णार्पणमस्तु